मुद्गलपुराणं खण्डं वन् वक्रतुण्डचरितम् अध्यायं 40 ब्रह्मणस्तपश्चरणं श्रीगणेशाय नमः दक्ष उवाच धन्योऽस्म्यनुगृहीतोऽस्मि यत्त्वया श्रावितं महद चरित्रं वक्त्रतुण्डस्य ब्रह्मभूयकरं महद श्रुत्वा श्रुत्वा नमे मे तृप्तिर्जायते मृदतो यथा इच्छामि तत्पुनः श्रोतुम् पूजितो विधिना कथम् विस्तरेण च मे ब्रूहि कथां पापापनोदिनीं श्रोधु प्रष्टुश्च वक्तुश्च त्रयाणाम् सर्वसिद्धिदाम् सुद उवाच दक्षस्य वदनम् श्रुत्वा मुद्गलस्तमुवाचः उत्फुल्लनयनो हर्षाद् गणेशेन्द्रः स शौनक मुद्गल उवाच शृणु दक्षमहाभागधन्योऽसि न च संशयः येन ते गणराजस्य कथायाम् प्रीतिरद्भुता अल्पपुण्यवधुठिकधारणे श्रवणे चा प्रीतिर्जयन कदाचन अदस्ते हम प्रवक्षादादर सुषिदेपेण कथा दिव्यां गणेश महात्म प्रलयाद गणेशा पंचा तप प्रभाव प्रसन्न वरदोत वरस प्रभाव समस्व प्रवृत्ता साव धाने ब्रह्मा जगदो भवद, सवधानेन नेतसा सृष्टिप्रक्रहृत् जगदोब सस्गणेशनम विस्मृतर्चनम्राव्यो मानसे थे, त्रिलोके लोकन मत्तुल्य स्रष्टा नात्र संशयः सृजामि सकलं विश्वं तदा विष्णुश्च पादि वै रुद्रसंहरदेतच्च शक्रिर्मोहं करोति च सूर्यकर्मप्रकाशं च करोति जगति प्रभुः न सृष्टं चेन्मया विश्वं देवत्वं तु निरर्थकम् ममाज्ञादौ गणेशेन कृता सृष्टौ विशेषतः मदीयां पात्रतां दृष्ट्वा तस्मान् नान्योऽस्ति मत्समः यदि गर्वेण मनसि मोहितो भूत्पितामहः तदो विघ्नगणास्तत्र प्रबभूवुरनेकषः सृष्टिविरचयन्तं तं ब्रह्माणं प्राप्य दारुणः नानारूपामहावीर्यास्ताडयामासुरोजसा त्रिनेत्राः पञ्चनेत्राश्च पृष्ठनेत्रा महाबलाः दशतुण्डासहस्रं च मुखानि दधतः एवं नानास्वरूपास्ते विधिं धृत्वा प्ररेमिरे बालक्रीडनकं कृत्वा दुःखयुक्तं महाबलाः एवं स परवान् ब्रह्मा गर्वं सर्वं प्रमुच्य वै जगामचरणं देवं गणेशं विघ्ननायकम् गतगर्वो हृदि स्मृत्वा तुष्टावगणनायकं तेन विघ्नगणः सर्वेऽन्तर्धानं तत्र चक्रिरे मुक्तो विघ्नैस्तदा ब्रह्मा तताप परमं तपः षडक्षरेण मन्द्रेण वक्रतुण्डमतोषयत वायुभक्षो भवद्ब्रह्मा पादाङ्कुष्ठाग्रसंस्थितः चकार तेजसा वृत्तिं गणेशे निश्चलां ततः एवं दिव्यसहस्रं स तपस्तेपे सुदारुणं ततोभूतानि सर्वाणि व्याकुलानि तदाभवन् ततस्त व्योऽग्रतपसा प्रसन्नो वक्रतुण्डकः आययौ भक्तराजं तं भक्तिभावेन तोषितः तेजोरूपी महाकायो वक्रतुण्डश्च ते महा दुर्भुजः सिंहारूढस्त्रिनेत्रश्च पाशाङ्गुश धरो विभुः वरदाभयहष्टश्च पृथुवक्षामहोदरः सिद्धिबुद्धियुधश्चिन्तामणिना च विराजितः नानालङ्कारसंयुक्तशेषनाभिर्गजाननः सिन्धूरारुणदेहश्च नानावस्त्रधरः प्रभुः तं दृष्ट्वा भयभीदोऽसौ विधातास्तौदितं परं गणेशम् हृदि सञ्चिन्त्य नानास्त्रोत्रैर्विधानदः वक्रतुण्डस्तुवन्तं तमुवाचखननिस्वनः वरं वृणु विथातस्त्वं दास्यामि तु न संशयः इति तस्य वच श्रुत्वा ब्रह्मा तं प्रणनाम च उवाच सौम्यरूपेण वरं देहि गजानन ब्रह्मणो गिरमाकर्ण्यसौम्यतेजा गजाननः उवाच तं महाभागम् भक्तिभावेन तोषितः वक्रतुण्ड उवाच स्वानन्दनगरे संस्थम् स दैत्यादृशरूपकं मृत्युलोके स्थितस्त्वं च कथं द्रक्ष्यसि तपसा भक्तिभावेन तोषितोऽहं त्वया विदे तेन सौम्यस्वरूपेण त्वदग्रे संस्थितो भवं त्वं तु मत्तो वरन् ब्रूहि दास्योऽहं वाञ्छितान् परान् मयि प्रसन्नतां यादे दुर्लभं न भविष्यति गणेशवचनं श्रुत्वा ब्रह्मातं प्रणनाम च बद्धाञ्जलिपुडो भूत्वा स्तोतुं तमुपचक्रमे ॐ तत्सदि श्रीमदान्त्ये पुराणोप निषदि श्रीमन्म उद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते ब्रह्मणस्तपश्चरणं नाम चत्वारिंशोऽध्यायः ओ